श्री श्रीदेव्यथर्वशीर्ष सर्वे वै देवादेवीमुपरस्थुः काशित्वम् महादेवीति सा ब्रवीत् अहम् ब्रह्मस्वरूपिणी मत्र प्रकृतिपुरुषात्मकम् जगत् शून्यम् चाशून्यम् च अहमानन्दानानन्दौ अहं विज्ञा विज्ञ ब्रह्मि वेदिते अहं पंचभूतापूता पंच अहमखिल जगत् वेदोहमेद वेदो विद्याहम विद्या अजाहाह अधस्ोर्धाह अहम रुद्रेसुलामी अहमादित्यैरुतविश्वदेवैः अहम् मित्रावरुणा बुभौ बिभर्मि अहमिन्द्राग्नि अहमश्विना बुभौ अहम् सोमम् त्वष्टारम् पूषणम् भगम् दधामि अहम् विष्णुमुरुक्रमम् ब्रह्माणमुत प्रजापतिम् अहम् राष्ट्रिसङ्गमनीवसूनाम् चिकुदृषी प्रथमा यज्ञियानाम् अहम् सुवेपितरमस्य मूर्धन्मयो निरप्सन्तः समुद्रे य एवम् वेद सदैवीम् सम्पदमाप्नोति ते देवा अभ्रुवन् नमो देव्यै महादेव्यै शिवायै सततम् नमः न मम प्रकृत्यै भद्रायै नियताः प्रणतास्वताम् तामग्निवर्णाम् तपसाज्वलन्तीम् वैरोचनीम् कर्मफलेषु दुष्टा दुर्गाम् देवीम् शरणम् प्रपद्या महे सुरान्नाशयित्र्यै ते नमः देवीं वाचमजनयन्त देवास्ताम् विश्वरूपाः प्रसवो सानो मन्द्रेश मूर्जम् दुहानाथेऽनुर्वाकस्मानुपसुष्टुतै तु कालरात्रीम् ब्रह्मसस्तुताम् वैष्णवीम् स्कन्दमातरम् सरस्वतीमदितिम् दक्षदुहितरम् नमामः पावनाम् शिवाम् महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि तन्नो देवी अदितिर्ह्यजनिष्टदक्षया दुहिता तव ताम देवा भद्रा अमृतबन्धवः कामो योनिः कमला वज्रपाणिः गुहाहसा मातरिश्वाभ्रमिन्द्रः पुनर्गुहासकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् एषात्मशक्तिः एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा एषा श्रीमहाविद्या य एवम् वेदशोकम् तरति नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः सैषाष्टौ वसवः सैषैकादश रुद्राः सैषा द्वादशादित्याः सैषा विश्वे देवाः सोमपा असोमपाश्च सैषा यातु धाना असुरारक्षांसि पिशाचा यक्षाः सिद्धाः सैषा सत्त्वरजस्तमांसि सैषा ब्रह्मविष्णुरुद्ररूपिणी सैषा प्रजापतीन्द्रमनवः सैषा ग्रहनक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी तामहम् प्रणौमित्यम् पापापहारिणीम् देवीम् भुक्तिमुक्तिप्रदायिनीम् अनन्ताम् विजयाम् शुद्धाम् शरण्याम् शिवदाम् शिवाम् वियरीकारसंयुक्तम् गीतिहोत्र समन्वितम् अर्धेन्दुलसितम् देव्या बीजम् सर्वार्थसाधकम् एवमेकाक्षरम् ब्रह्म यतयः शुद्धचेतसः ध्यायन्ति परमानन्दमया ज्ञानाम् दुराशयः वाङ्माया ब्रह्मसूस्तस्माच्छष्ठम् वक्रसमन्वितम् सूर्यो वामश्रोत्रबिन्दुसंयुक्तष्टा तृतीयकः नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः विच्चेन वार्णकोर्नः हृत्पुण्डरीकमध्यस्थाम् प्रातः सूर्यसमप्रभाम् पाशाङ्कुशधराम् सौम्याम् वरदाभयहस्तकाम् त्रिणेत्राम् रक्तवसनाम् भक्तकामदुभाम् भजे नमामि त्वाम् महादेवीम् महाभयविनाशिनी महादुर्गप्रशमिनीम् महाकारुण्यरूपिणीम् यस्या स्वरूपम् ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता यस्या लक्ष्यम् नोपलक्ष्यते तस्मादुच्यते अलक्ष्या यस्या जननम् नोपलभ्यते तस्मादुच्यते अजा एकैव सर्वत्र वर्तते तस्मादुच्यते एका एकैव विश्वरूपिणी तस्मादुच्यते नैका अत एवोच्यते अज्ञेयानन्ता लक्ष्या जैका नैकेति मन्त्राणाम् मातृका देवी शब्दानाम् ज्ञानरूपिणी ज्ञानानाम् चिन्मयातीता शून्यानाम् शून्यसाक्षिणी यस्याः परतरम् नास्ति सैषा दुर्गा प्रकीर्तिता ताम् दुर्गाम् दुर्गमाम् देवीम् पुराचारविघातिनीम् नमामि भवभीतोऽहम् संसारार्णवतारिणीम् इलमथर्वशीर्षम् योधीते स पञ्चार्थवशीर्षजपफलमाप्नोति इदमथर्वशीर्षमज्ञात्वा योर्जाम् स्थापयति शतलक्षम् प्रजप्त्वापि सोर्चा सिद्धिम् न विन्दति शतमष्टोत्तरम् चास्य स्मृतः दशवारम् पठेद्यस्तु सद्यः पापैः प्रमुच्यते महादुर्गाणि तरति महादेव्याः प्रसादतः सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरथीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो अपापो भवति निशिथे तुलीयसन्ध्यायाम् जप्त्वा वाक्सिद्धिर्भवति नूतनायाम् प्रतिमायाम् जप्त्वा देवता सान्निध्यम् भवति प्राणप्रतिष्ठायाम् जप्त्वा प्राणानाम् प्रतिष्ठा भवति भौमाश्विन्याम् महादेवी सन्निधौ जप्त्वा महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत्